शिवगीता पञ्चमोऽध्यायः सूत उवाच अत प्रादुरभूत्तत्र किरण्मय रथो महान् अनेकदिव्यरत्नांशु निर्मीरितदिगन्तरः नद्युपान्तिकपङ्काड्य महाचक्रचतुष्टयः मुक्तातोरणसंयुक्तः श्वेतच्छत्रशतावृतः शुद्ध हेमकलीनाड्य तुरङ्गगणसंयुतः मुक्तावितानविलसत् ऊर्ध्वदिव्युवृषध्वजः मत्तवारणिकायुक्तः पट्टतल्पोपशोभितः पारिजादतरूद्भूत पुष्पमालाभिरञ्जितः मृगनाभिसमुद्भूत कस्तूरी मदपङ्किलः कर्पूर आगरुदूपोत्त कन्ताकृष्टमधुव्रतः संवर्तगणगोषाढ्यो नानावाद्यसमन्वितः वीणा वेणुस्वनासक्त किन्नरी गणसङ्कुलः एवम् अम्बय्या सहितः तत्र पट्टतल्पे अभिषत्तदा नीराजनैः सुरस्त्रीणां श्वेतचामरचालनैः दिव्यजनपातैश्च प्रकृष्टो नीलोहितः पुणत्कङ्कणनिध्वानैः मञ्जुमञ्जीरसिञ्चितैः वीणावेणुस्वनैर्गीतैः पूर्णमासीत् जगत्त्रयम् सुककेकीकुलारावैः श्वेतपारावतस्वनैः उन्निद्रभूषापणिनाम् दर्शनादेवबर्हिणः न नृतुर्दर्शयन्तः स्वान् चन्द्रकान् कोटिसङ्ख्यया प्रणमन्तम् ततोरामं रामम् उत्ताप्य वृषभध्वजः आनिनायरतम् दिव्यम् प्रकृष्टेन अन्तरात्मना कमण्डलुजलैः स्वच्छैः स्वयम् आचम्य यत्नतः समाचम्य अथ पुरतः स्वाङ्के रामम् उपानयत् अथ दिव्यम् धनुस्तस्मै ददौ तु नीरमक्षयम् महापाशुपतम् दिव्यम् अस्त्रं ददौ ततः उक्तश्च तेन रामोऽपि सादरं जगन्नाशकरम् रौद्रम् उग्रम् अस्त्रमिदम् नृप अतो नेदम् प्रयोक्तव्यम् सामान्यसमरादिके अन्यम् नास्ति प्रतीगातम् एतस्य भुवनत्रये तस्मात्प्राण अत्यये राम प्रयोक्तव्यम् उपस्थिते अन्यदेतत्प्रयुक्तम् तु जगत्संशयकृद्भवेत् अथ आहूय सुरश्रेष्ठान् लोकपालान् महेश्वरः वाचपरमप्रीतः स्वं स्वम् अस्त्रम् प्रयच्छत राघवोऽयम् च तैरस्त्रैः रावणम् विगनिष्यति तस्मै देवैरवद्यत्वम् इति दत्तो वरोमया तस्माद्वानरताम् एत्य भवन्तो दुर्मदा साहाय्यम् अस्य कुर्वन्तु तेन सुस्ता भविष्यत तदाज्ञाम् शिरसा गृह्य सुराः प्राञ्जलयस्तथा प्रणम्यचरणौ शम्भोः स्वं स्वम् अस्त्रम् ददुर्मुदा नारायणास्त्रम् दैत्यारी ऐन्द्रम् अस्त्रम् पुरन्दरः ब्रह्मापि ब्रह्मदण्डास्त्रम् आग्नेयास्त्रम् धनञ्जयः यां यं मोहास्त्रम् रक्षो राजस्तथा ददौ वरुणो वारुणम् प्रादाद् वायव्यास्त्रम् प्रभञ्जनः कौबेरम् च कुबेरोऽपि रौद्रम् ईशान एव च सौरम् अस्त्रम् ददौ सूर्यः सौम्यम् सोमश्च पार्वतम् विश्वेदेवा ददुस्तस्मै वसवो वासवाभिधम् अथ तुष्टः प्रणम्येषं। रामो दशरथात्मजः प्राञ्जलिः प्रणतो भूत्वा भक्तियुक्तो विजिज्ञपते श्रीराम उवाच भगवन्मानुषेणैव न उल्लङ्घ्यो लवणाम्बुदिः तत्र लङ्काभिधम् दुर्गम् दुर्जयं देवदानवै अनेककोट्यः तत्र राक्षसा बलवत्तराः सर्वे स्वाध्यायनिरताः शिवभक्ता जितेन्द्रियाः अनेकमाया संयुक्ता बुद्धिमन्तो अग्निहोत्रिणः कथम् एकाकिना जेया मया भ्रात्रा च संयुगे श्रीमहादेव उवाच रावणस्य पदे राम रक्षसामपि मारणे विचारो न त्वया कार्यः तस्य कालोऽयमागतः अधर्मे तु प्रवृत्तास्ते देवब्राह्मणपीडने तस्मादायुक्षयम् जातुम् तेषाम् श्रीरपि सुप्रथा राजस्त्रीकामनासक्तम् रावणम् विहरिष्यसि पापासक्तो रिपुर्जेतुः सुकरः समराङ्गणे अधर्मे निरतः शत्रुः वाग्येनैव लभ्यते अधीतधर्मशास्त्रोऽपि सदा वेदरतोऽपि वा विनाशकाले सम्प्राप्ते धर्ममार्गाच्युतो भवेत् विड्यन्ते देवताः सर्वाः सततम् येन पापिना ब्राह्मणा ऋषयश्चैव तस्य नाशः स्वयम् स्थितः निष्किन्धा नगरे राम देवानाम् अंशसम्भवाः वानरा बहवो दुर्जया बलवत्तराः साहाय्यम् ते करिष्यन्ति तैर्बद्वाच पयोनिधिम् अनेकशैलसम्बद्धे सेतो यान्तु बलिमुखाः रावणं सगणम् हत्वा तामानय निजाम् प्रिया शस्त्रैर्युद्धे जयो यत्र तत्र अस्त्राणि न योजयेत् निरस्त्रेषु अल्पशस्त्रेषु पलायनपरेषु च अस्त्राणि मुञ्चन् दिव्यानि स्वयमेव विनश्यति अथवा किम् बहुक्तेन मयैव उत्पादितम् जगत् मयैव पाल्यते नित्यम् मया संह्रियतेऽपि च अहमेको जगन्मृत्युः मृत्योरपि महीपते रसे अहमेव सकलं जगदे तच्चराचरम् मम वक्त्रगताः सर्वे राक्षसा युद्धदुर्मदाः निमित्तमात्रं त्वम् भूयाः कीर्तिम् आप्सि सङ्करे इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे रामाये परप्रदानं नाम पञ्चमोऽध्यायः